श्रीहरये नमः अत एकत्रिंशोऽध्यायः श्रीशुक उवाच अतत्तत् गमद्ब्रह्माः भवान्या च समं भवः महेन्द्रप्रमुख देव मुनयः सप्रजेश्वराः पितरः सित्तगन्धर्व विद्याधरमहोरगाः यक्षरक्षांसे भगवतो निर्याणं परमोत्सुकाः गायन्तश्च कृष्णन्तश्च सौरे कर्माणि जन्म च ववृषुपुष्पवर्षाणि विमानावलिभिर्नभः कुर्वन्तः राजन् भक्त्या परमया युताः भगवान् पितामहं वीक्ष विभूतिरात्मनो विपुः संयोज्य आत्मनिशात्मानं पद्मनेत्रेण्यमीलयत् लोकाभिरामां स्वतनुं धाराणाध्यानमङ्गलं योगधारणयाज्ञेयात् धा मावि सत्सुखं दिवि दुन्दुभयोनेथो पेतुः सुमनःसश्चखत् सत्यं धर्मो धृतिर्भूमे कीर्तिश्रीश्चानुतं ययुः देवादयो ब्रह्ममुख्या न विशन्तं स्वधामनीम् अविज्ञातगतिं कृष्णम् ददृशोश्चाति विस्मिताः सौदामन्या यथाकाशे यान्त्या हित्वा गतिर्न लक्ष्यते मर्त्यैस्तथा कृष्णस्य दैवतैः ब्रह्मरुद्रातयस्तेतो दृष्ट्वा योकगतिं हरेः विस्मितास्तां प्रशंसन्त स्वं स्वं लोकं युयोस्तधाः राजन् परस्य धनुभृञ्जनाप्ययेहा मायाविडम्बनमवेहि यतनटस्य सृष्ट्वात्मनेदमनुविश्य विहृत्य शान्ते संहृत्य शात्महिनो आस्ते मर्त्येन यो गुरुसुतं यमलोकनीतम् त्वां चानयश्चरणध परमास्त्रधक्तम् जिह्येन्त कान्तगमपि समसावनीशः किं मृगयुं सदेहम् तथाप्यशेष अनन्यहेतुर्यतशेषशक्तिदृ नैश्च प्रणेतुं वपुरत्र शेषितं मर्त्ये न किं स्वस्थगतिं प्रदर्शयन् ययेतां प्रातरुत्थाय कृष्णस्य पदवीं परां प्रयतकीर्तयेद्भक्त्या तामेव आप्नोति अनोत्तमं दारुको द्वारकामेत्य पतित्वा चरणावस्त्रैर् न्यषिञ्चत्कृष्णविच्युतः कथयामास निधनं वृष्णीनां कृष्णसोन्रपा तच्छ्रुत्वोद्विग्नहृदया जनाशोकविमोर्चिताः तत्र स्म त्वरिता जग्मो देवकी रोहिणी चैव वसुदेवस्तथा सुतौ कृष्णरामौ अपश्यन्त शोकार्ता विजहुस्मृतिं प्राणान्स् विजहुस्तत्र भगवद्विरहातुराः उपगुह्य पतिं स्थात चिताम् आरुरुः स्त्रियः रामपत्न्यश्च तद्देहम् उपगुह्याग्निमाविशत् वसुधेवपत्न्यस्तद्गात्रम् प्रद्युं नातिन् हरे स्नुषाः कृष्णपत्न्यो विसन्नग्ने रुक्मिण्याद्यास्तदात्मिकाः अर्जुनप्रेयससक्यो सख्यो कृष्णस्य विरहातुरः आत्मानं सान्त्वयामासे कृष्णगीतैः स सा दोक्तिभिः बन्धूना नष्टगोत्राणाम् अर्जुनशां परायिकं कथानां कारयामासे यादवत्तनुपूर्वसः द्वारकां करिणा त्यक्तां समोद्रोप्लावयत् भर्जयित्वा महाराज श्रीमद्भगवदालयं नित्यं सन्निहितस्तत्र भगवान् मधुसूतनः स्मृत्याशेष अशुभहरं सर्वमङ्गलमङ्गलं श्रीबालवृद्धानादाय हतशेषान्धनञ्जयः इन्द्रप्रस्थं समावेश्य वज्रं तत्राभ्यचेशयत् श्रुत्वा सुहृद्वतं राजन् अर्जुना ते पितामहः त्वां तु वं कृत्वा जग्मुः सर्वे विष्णो कर्माणि जन्म च कीर्तैः श्रद्धयामर्त्य सर्वपापै प्रमुश्यते इत्थं हरेर्भगवतो रुचिरावदार वीर्याणि बालचरितानि च संतमानी अन्यत्र चेख च श्रुतानि गृणन्मनुष्यो भक्तिं पराम् परमहं सगदो लभेत् भक्तिं परां परमहं सगदो लभेत् भक्तिं परां परमहं सगदो लभेत् भक्तिं परां परमहं सगदो लभेत् इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां पारमहंश्यां संहितायाम् एकादशस्कन्धे एकत्रिंशोऽध्यायः इत्येकादशस्कन्धसमाप्ता हरिवों तस्तत् हरिवों तस्त सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा गोविन्द सद्गुरुमहाराज के जय